गौरी शङ्कर गङ्गाधीश्वर महेश्वर पालय मां गौरी शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मां मृगचर्माम्बरभस्मविलेपन गिरिजाशङ्करत्राहि मा मृगचर्माम्बर भस्म विलेपन गिरिजाशङ्करतारिमा गौरी शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर चर्मारभस्वभिलेपन गिरिजाशङ्कर राहि मा गौरी शङ्कर गङ्गाधीश्वर शम्भु महेश्वर पालय मा गौरी मृगचर्माम्बर भस्मविलेपन गिरिजाशङ्कर त्राहिमां मृगचर्माम्बर भस्म गौरी शङ्कर गङ्गाधीश्वर शम्भु महेश्वर पालयमा पाल मा गौरी शङ्कर गङ्गाधीश्वर शम्भु महेश्वर पालय मा मृगशर्माम्बरभस्मविलेपन गिरिजाशङ्कर काहि मां मृगशर्मा स्म विलेपन गिरिजाशङ्करत्राणि मां गौरेशङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मां गौरे शम्भुमहेश्वर पालय मा मृगचर्माम्बरभस्मविलेपन गिरिजा शङ्कर त्राहिमा मृगचर्मा भरभस्म विलेपन गिरिजा शङ्करहिमा गौरी शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मा गौरी शङ्कर गङ्गाधीश्वर शम्भुमहे मृगचर्माम्बर भस्मविलेपन गिरिजाशङ्कर त्राहि मा मृगचर्माम्बर भस्मविलेपन गिरिजाशङ्कर त्राहि मा गौरी शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मा गौरी शङ्कर गङ्गा श्वर शम्भुमहेश्वर पालय मा मृगचर्माम्बर भस्म विलेपन गिरिजाशङ्कर शंभु महेश्वर पालय मां गौरी शंकर गंगाधीश्वर शंभु महेश्वर पालय मृगचर्माबर भस्म विलेपन गिरीजा शंकर राह माँ मृगचर्माबर भस्म विलेपन गिरीजाशंकर गौरे शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मा गौरे शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मृगचर्माम्बरभस्मविदे पन गिरिजाशङ्करत्राहि मां मृगचर्माम्बरभस्मविदे पन गिरिजाशङ्करत्राहि मां गौरीशङ्कर गङ्गाधीश्वर शम्भुमहेश्वर चर्माम्बर भस्म विलेपन गिरिजा शङ्कर कालि मा मृग चर्माम्बर भस्म विलेपन गिरिजाशङ्कर कालि मा गौरे महेश्वर पालय मा गौरे शङ्कर गङ्गाधेश्वर महेश्वर पालय मा मृग शङ्कर दाहिमा कृतचर्माबरभस्मभिलेपन गिरिजाशङ्कर कालिमा गौरी शङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय शंभुमेश्वर पालय मृग चर्माबर भस्मपन गिरीजाशंकर मृग चर्माबर भस्मेपन गिरीजाशंकर गौरी शंकर गङ्गाधीश्वर शम्भुमहेश्वर पालय मा गौरीशङ्कर गङ्गाधीश्वर शम्भुमहेश्वर पालय मा मृगचर्माम्बरभस्मविदेवन गिरिजाशङ्कर राधिमा मृगचर्माम्बरभस्मविदेवन गिरिजाशङ्कर राहिमा शम्भुमहेश्वर पालय मा शम्भुमरेश्वरपालय मा गिरिजाशङ्करताहिमा गिरिजाशङ्करताहिमा